श्री गणेशाय नमः श्री गौरी शङ्कराभ्यां नमः अथ श्री शिवमहापुराणे विश्वेश्वर विद्येश्वर संहितायां पञ्चमोद्याय शिवलिङ्गमहिमा सूत्त उवाच श्रवणादितृगे शक्तो लिङ्गम् वेरं च शङ्करं शा, संस्थाप्य नित्यमभ्य संसारसागरम् अपि द्रव्यम् वहेदेव यथा बलम् अर्पये लिंग अर्पयेद्लिङ्गभीरार्थम् अर्चयेदपि सन्ततम् मण्डपम् गोपुरम् तीर्थम् मठम् क्षेत्रं तथोत्सवम् वस्त्रं गन्धं च माल्यं च धूपं दीपं च भक्तितः त्रिविधानं च नैवेद्यम् छत्रं द्वयं च व्यजनम् चामरं चापि साङ्गकम् राजोपचारवत् सर्वं धारे लिङ्ग वेरयोः प्रदक्षिणां नमस्कारं यथाशक्ते जपं तथा आवाहनादिसर्गान्तं नित्यं कुर्यात् सुभक्तितः इत्थम् अभ्यर्थयन् देवं लिङ्गे सिद्धिमेति शिव हित्वापि श्रवणादिकम् लिङ्गवेराचनामात्रान् मुक्ता पूर्वे महाजनः मुनयतु वेर मात्रे तु सर्वत्र पूज्यन्ते देवतागणाः शिङ्गे वेरे च सर्वत्र कथं सम्पूज्यते शिवः श्रुतो वाच अहो मुनीश्वर पुण्यम् कन्नम् वेतन् अत्र वक्ता महादेवो न्योऽस्ति पुरुष क्वचित् शिवेन वक्तं प्रवक्ष्यामि क्रमाद्गुरु मुखाश्रतं शिवैको ब्रह्मरूपत्वान् निष्कलय परिकीर्तितये सकलस्तद्वत् तस्मात् सकल निष्कलय निष्कलत्वान् निराकारम् तस्य समागतम् सकलत्वात् तथा वेरं साकारं तच्च चे सङ्गतं सकलकलरूपत्वात् ब्रह्म शब्दाभिधर अपि च वेरे च न ब्रह्मत्वात् धन्येषां निष्कलत्वं न हि क्वचित् तस्मात् ते स ब्रह्मत्वाच्च जीवत्वात् तथान्ये देवतागणात् तूष्णीं जगलमात्रत्वात् अर्चन्ते वेद मात्रके जीवत्त्वं चङ्करान्येषां ब्रह्मत्वं शङ्करस्य च वेदान्तसार प्रणवार्थे प्रकाशनात् एवम् एव पुरा पृष्टौ मन्दरे सनत्कुमार मुनिना ब्रह्मपुत्रेण धीमता सनक्कुमारवाच शिवान्यदेव वैश्यानां सर्वेषामपि सर्वतः वेर मात्रं च पूजार्थं ऋतं धृष्टं च भूरिच शिवमात्रस्य पूजायां सिंहं वेरं च दृश्यते अतस्त द्रूहि कल्याण सप्तमेव नन्दिकेश्वर उवाच अनुत्तरम् इमं प्रयत्नं रहस्यं ब्रह्मलक्षणम् कथयामि शिवेनोक्तम् भक्तियुक्तस्य तेन गृहे शिवस्य ब्रह्मरूपत्वान् निष्कलयित्वा च निष्कलम् लिङ्गम् तस्यैव पूजायां सर्वभेदेषु सम्मतम् तस्यैव तथा सकल सकलं च चे तथा वीरम् पूजायां शिवान्येषां च जीवत्वात् सकलत्वाच्च सर्वतः वीरमात्रम् च पूजायां सम्मतं वेदनिर्णये स्वाविर्भावे च चे वेददेवानां सकलं रूपमेव हि शिवस्य लिङ्गम् वीरं च दर्शने दृश्यते खलु उक्तं त्वया महाभाग लिङ्गवेर प्रचारणम् शिवस्य च तदन्येषां विभज्य परमार्थतः तस्मात्तदेव परमम् लिङ्गवेरादिसम्भवम् श्रोतुमिच्छामि योगेन्द्र लिङ्गाभिर्भावलक्षणम् नन्दिकेशर उवाच शृणुवत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः पुराकल्पे महाकावे प्रपन्ने लोकविश्रुते अयोध्ये तमात्मानो ब्रह्म विष्णु परस्परं तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः निष्कलस्तम्भरूपेण स्वरूपं समदर्शयत् तदस्वलिङ्गचिह्नत्वात् स्तम्भतो निष्कलं चिवः स्वलिङ्गम् दर्शयामात् जगताम् हितकाम्यया तदा प्रभृति लोकेषु निष्कलं लिङ्गमेश्वरम् सकलं च तथा वीरम् शिवस्यैव प्रकल्पितम् शिवान्येषवानाम् वेरमात्रम् प्रकल्पितम् तत्तद् वीरं तु देवानां तत्तद् भोगपदं शुभम् शिवस्य लिङ्ग वेरत्वम् भगमोक्षपदम् शुभम् इति श्रीशिवमापुराणे प्रथमायां विद्येश्वरसंहितायां शिवलिङ्गमहिमावर्णनं पंचमोध्याये पञ्चमोऽध्याय श्रीगौरी शङ्करास्पणमस्तु